मुद्गलपुराणं खण्डं त्रि महोदरचरितम् अध्यायं ट्वेण्टि ऐट् <speaking> श्रीगणेशाय नमः शौनक उवाच सूदत्वया महाख्यानं कथितं सर्वसिद्धितं श्रुत्वा तृप्तिं नयामीहामृदम् पीत्वा यथा नरः पुनस्त्वं वद मे ब्रह्मन् भवेद् दक्षेण संश्रुतं मुद्गलान्मुनिमुख्या च सर्वेषां सम्मदं परं सूत उवाच सूर्यस्य वालकिल्यानां संवादं ब्रह्मदायकं श्रुत्वा पप्रच्छतं दक्षो मुद्गलं विनयान्विदः दक्ष उवाच श्रुतं हेरम्बमापद्म्यं ब्रह्मभूतपदप्रदं पुनस्त्वं वद विप्रर्षे महोदरचरित्रकं श्रुत्वा श्रुत्वा न मे तृप्तिर्जायदे योगिसत्तम कथां ब्रह्ममयीं पूर्णां सुधारससमां परां सुद उवाच दक्षस्य वचनं श्रुत्वा हृष्टरो मा महायशाः जगादतं प्रजापालं यत्तशृणुहि शौनक मुद्गल उवाच युधिष्ठिरेण देवेशो मानप्रथमहोदरः आराधिदो विशेषेण योगी शोभूच्च पाण्डवः दक्ष उवाच युधिष्ठिरस्य विप्रर्षे चरित्रं वद साम्प्रदम् प्रारभ्य चन्द्रवंशाच्च तदन्तं पुण्यदं भवेद मुद्गल उवाच अत्रिनेत्रात् समुत्पन्नश्चन्द्रो मृतमयः पुरा तेनादितपस सेवितो गणनायकः वरदानेन गणेशवरदानेन ताराणामधिपो भवद ओषधीनां च विप्राणां योगयुक्तः प्रदापवान् ततः स राजा मोहेन मोहितोदितरां विभो गणेशभजनं त्यक्त्वा भोगयुक्तो बभूवः ततो विघ्नेन वै चन्द्रः पीडितो मोहसंयुतः मोहेन गर्हितं कर्म यच्चकारशृणुष्व तद बृहस्पतेश्च या नारीतारा यौवनशालिनी रूपेणा प्रतिमातां स जगृहे तीर्थसंश्रितां मामे दिब्रुवतीं तारां हाहाकारं प्रभुर्वतीं गुरुपत्नीं महामूर्खश्चुचुम्बहठसंयुतः वनशु पर्वतद्रोण्यां ना स्त्रिज रेमेतया प्रजापाण प्रपीडि तदो बह गर्भस्तस्यां व्यवर्धता न तदाप्येदां तदाप्येद मोहयुक्त चंद्रमा बृहस्पतिश्च तं ज्ञात्वा वृत्तान्तं क्षुभिदो भृशं नानायत्नेन चन्द्रं स ययाचे न ददौ शठः ततश्च गुरुणा दक्ष शिवस्तेन प्रसादितः शम्भुरङ्गिरसशिष्यस वै क्रोधयुतो भवद देवैरिन्द्रादिभिर्सर्वैः शङ्करक्रोधसंयुधः हन्तुं चन्द्रं ययौ तत्र क्रोधारुणविलोचनः भयभीदशि तत्र शुक्रं सशरणं ययौ तेनाप्याङ्गिरस्यैव वैरी सम्पादितो भवत शुक्रेणा कारिदा दैत्या प्रह्लादप्रमुखाय युः सङ्ग्रामाय शिवेनैव ससुरेण तुमुलं रोमहर्षणं दैत्यानां चैव देवानां मासमात्रं महोग्रं तन्न दिवारात्रं देवगणा दैत्यानां च गणा विभो तदो बृहस्पतिर्दुःखात् सस्मारगणनायकं निन्दयामस चात्मानं तथा चन्द्रं प्रजापते अहो भ्रातृविरोधेन मम ज्ञानं गदं अखद गदो गणेशस्तेनाहं विघ्नयुक्तो धुना भवं मदर्थं देवदैत्यानामधुना नाश आगतः किं भविष्यदि देवेश गजानननमोऽस्तु ते निर्विघ्नं कुरु मां ढुण्ढे धुना देवदयानिधे देवानां चैव दैत्यानां मूलच्छेदो भविष्यति तथा चन्द्रः सतं देवं सस्मार हृदिभाव ततो विघ्नहरश्चैव तयोर्दक्ष बभूवः तत्र जगामदेवेशो ब्रह्मा सर्वपिधामहः देवानां दानवानां वै ज्ञात्वा नाशं दयान्वितः शङ्कराद्यांश्च देवांशप्रह्लादाद्यांश्च दानवान् वारयामास सर्वज्ञो विधादासर्वभावनः ब्रह्मणो वचनं श्रुत्वा संस्थिता देवदानवाः प्रणम्यतं विधातारं बद्धाञ्जलिपुडाः पुरः चन्द्रं तत स्तिरस्कृत्य ददौ तारां पितामहः गुरवे तत्र संवादपुत्रार्थं च तयोरभूद ताराया उदरे गर्भो वा चन्द्रस्य बृहस्पते हे न ज्ञायते देवगणैस्ततस्तां विधिरब्रवीद महाभागे कस्यां चोऽयं तथा तया च सन्ध्यक्तो गर्भसम्पदितोऽभवद महातेजोमयं पुत्रं वीक्ष्य देवा विसिस्मिरे लज्जयाधो मुके तारा कथयामासनैवतं तदो गर्भस्वयं तत्रो वाचब्रह्माणमादराद चन्द्रस्याकं न सन्देहस्तं तारापि तथाब्रवीद तस्य नाम कृतं देवैर्बुधस्तेन सुकर्मणा चन्द्रायतं दद्धौ धादा सर्वे स्वस्वालयं ययुः एवं पुरा तारकार्थे सङ्ग्रामस्तारकामयः बभूव परमुग्रश्च दैत्यदेवविनाशकृद बुधस्य च जितं पूर्णं कथितं ते प्रजापते पुरुवास्तस्य पुत्रो बभूवापि महायशाः इलायां गर्भसन्तानात्तस्य जन्म मया पुरा कथितं सोऽपि करो भवत ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिदे बुधोत्पत्तिवर्णनं नामाष्टाविंशतितमोऽध्यायः ॐ